अथ ब्रह्मात्मन्नित्यनुवाकः शिवाय नमः ओ ब्रह्मात्मन्वद सृजत तदकामयत समात्मना पद्येजेति आत्मन्नात्मन्नित्यामन्त्रयत तस्मै दशमगुम्हूतः प्रत्यशृणोत् स दश दशहूतो हवैनामैषः तम् वा एतम् दशहूतकुम्सन्तम् दशहोतेत्याचक्षते परोक्षेण परोक्षप्रियायि व हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै सप्तमगुम्हूतः प्रत्यशृणोत् सप्तहूतोऽभवत् सप्तहूतो हवैनामीषः तम् वा एतकुम् सप्तहूतकुम् सन्तम् सप्त होतेत्याचक्षते परोक्षेण परोक्षप्रियायि वहि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै षष्ठगुम् हूतः प्रत्यशृणोत् षड्ढूतोऽभवत् षड्ढूतो म् वा एतकुम् षड्ढूतकुम् सन्तम् षड्ढूतेत्याचक्षते परोक्षेण परोक्षप्रियाय व हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै पञ्चमकुम्हूतः प्रत्यशृणोत् स पञ्चहूतोऽभवत् पञ्चहूतो तम् वा एतम् पञ्चहूतगुम् सन्तम् पञ्चहोतेत्याचक्षते परोक्षेण परोक्षप्रियायि व हि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै चतुर्थकुम् हूतः प्रत्यशृणोत् स चतुरु भवते चतुरुहोतो हवैनामेषः तम् वा एतम् चतुर्होतकुम् सन्तम् चतुर्होतेत्याचक्षते परोक्षेण परोक्षप्रियायि वै देवाः तमब्रवीत् त्वम् वै मेनेतिष्ठकुम् होतः प्रत्यश्रौषीः त्वयि नानाख्यातार इति तस्मान् हि नागिश्चतुर्होतार इत्याचक्षते यस्मा शुश्रूषुः पुत्राणागुम् हृद्यदमः नेदिष्ठो हृद्यमः नेदिष्ठो ब्रह्मणो भवति य वेदा आत्मने नमः